अश्वमेधे हयं रक्षिभिर्वृतं पितुर्मे यज्ञविघ्नार्थमहरत् पापनिश्चयः सौवीरान् प्रतियातां च तपस्विनः भार्यामभ्यहरन्मोहादका मां तामितो येशमाया प्रतिच्छन्न करूषार्थे तपस्विनीम् जहारभद्राम् वैशालीम् मातुलस्य दृशम् सकृत् पितृष्वसुः कृते दुःखम् सुमहन्मर्शयाम्यहम् दिष्ट्याहीदम् सर्वराज्ञाम् सन्निधावद्यवर्तते पश्यन्ती हि भवन्तोऽद्यमयतीव व्यतिक्रमम् कृतानि तु परोक्षम् मे यानि तानि निबोधत इमम् त्वस्य न शक्ष्यामि क्षन्तुमद्य व्यतिक्रमम् अवलेपाद्वधार्हस्य समग्रे राजमण्डले रुक्मिण्यामस्य मूढस्य प्रार्थनासीन्मुमूर्षतः न च ताम् प्राप्तवान्मूढः शूद्रो वेद श्रुतिमिव वैशंपायन उवाच एवमादिततः सर्वे सहितास्ते न राधिपाः श्रुत्वा चेदि व्यगर्हयन् तस्य तद्वचनम् श्रुत्वा शिशुपालः प्रतापवान् जहासस्वनवद्धासं वाक्यं चेदमुवाचह। मत्पूर्वाम् रुक्मिणीं कृष्णसंसत्सु परिकीर्तयन् विशेषतः पार्थिवेषु व्रीडां न कुरुषे कथम्